वृष्णयो वा किरन्प्रीताः सङ्कर्षणजनार्दनौ सबाला सह वृद्धाश्च सज्ञातिकुलबान्धवाः उपोपविविशु प्रीता वृष्णयो मधुसूदनम् पूज्यमानो महाबाहुः पौराणाम् रतिवर्धनः विवेशपुरुषव्याघ्रः स्ववेश्मधुसूदनः रुक्मिण्या सहितो देव्या प्रमुमोदसुखीसुखम् अनन्तरं च सत्याय जाम्बवत्याश्च भारत सर्वासां च यदुःश्रेष्ठः सर्वकालविहारवान् जगाम च हृषीकेशो रुक्मिण्याः स्वं निवेशनम् एष तातमहाबाहो विजयः शार्ङ्गधन्वनः एतदर्थं च महात्मनः भीष्म उवाच द्वारकायाम् ततः कृष्णः स्वदारेषु दिवानिशम् सुखम् लब्ध्वा महाराज प्रमुमोदमहायशाः पौत्रस्य कारणाच्चक्रे विबुधानाम् हितम् तदा स वासवैः सुरैः भरतर्षभ बाणो नामाभवद्राजा बलेर्ज्येष्ठसुतो बली वीर्यवान्भरतः श्रेष्ठ स बाहु बाहुसहस्रवान्